हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे षड्विंश सर्गः श्रीरामस्य उदासीन्यम् दृष्ट्वा सीतया तम् प्रति तत्कारणस् जिज्ञासनम् पितुराज्ञम् आत्मनो निश्चयम् ब्रूता श्रीरामेण गृहेव स्थातुम् सीतायाः प्रबोधनम् अभिवाद्य कौसल्याम् रामः सम्प्रस्थितो वनम् कुतः स्वस्य यनो मात्रा धर्मिष्ठे वर्त्मने स्थितः विराजयन् राजसुतौ राजमार्गम् न निहृतम् जनस्य गुणवत्तय वैदेही चापि तत्सर्वम् तपस्विनी सदैव युवराजभिषेचनम् देवकार्यम् स्म सा कृत्वा कृतज्ञा कुर्त हृष्टचेतन अभिज्ञा राजधर्माणाम् राजपुत्री प्रतीक्षति प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् प्रवृष्ट जनसम्पूर्णम् रिया किञ्चिदवाङ्मुख अथ सीता सुमुत्पत्य वेपमाना च अपश्य शोक सन्तप्तम् चिन्ता व्याकुलितेन्द्रियम् तां दृष्ट्वा स हि धर्मात्मा न मनोगतं तं शोकं राघव सोढुम् ततो विव्रूत तां गत विवरण वदनम् दृष्ट्वा तं प्रसन्नम् अमर्शनम् अह दुःखाभि किमिदानीम् इदम् प्रभौ अद्य बाहस्पदश्रीमान् युक्तपुष्येण राघवे प्रोचते ब्राह्मणैः प्राज्ञै केन तम् असि दुर्मनः न जलफेन निभेन च आवृत्तम् वदनम् बलु क्षत्रेणाभि विराजते व्यजनाभ्याम् च मुख्याभ्याम् शतपत्र निपेक्षणम् चन्द्रहंस प्रकाशाभ्याम् विद्यते न तवानम् वाग्मिनो वन्दनश्चापि प्रष्टास्तां नृषभो ना च दृश्यन्ते मङ्गले सूतमागधा न ते क्षौद्रम् च दधि च ब्रह्मण नत्साम ददती स्मानत नकृत सर्व श्रेणी मुख्या चूषिता अव्रीतजान पदार चतुर्भ वेग संपन्नी हएकाचन भूषण मुख्याुक्त किम न गचति न हसी जाग्रत श्रीमान सर्वलक्षणपूजितः प्रियाणे लक्ष्यते वीर कृष्ण मेघ गिरिप्रभ न च काञ्चन चित्रं ते पश्यामि प्रियदर्शन भद्रासनं पुरस्कृत्य यान्तम् वीर पुरस्सरम् अभिषेको यदा सज्ज किम् इदानीमिदं अपूर्वो मुखवर्णश्च न प्रहषश्च लक्ष्यते इति विलपन्तिं तां प्रवाच रघुनन्दनः सिते ते तत्र भवान् तत् कुले महती संभूते धर्मज्ञे धर्मचारिणी शृणु जानकी नेदम् क्रमेणात्यागतम् नवै राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै कैकय्ये कै मम मात्रे तु पुरा दत्तो महावरो प्रयाद्य मम सज्जेस्मिन् अभिषेकेन्द्रोध्यते प्रचोदितः समयो धर्मेण प्रतिनेजितः चतुर्दश हि वर्षाणि वक्तव्यं धण्डण्डके मया विस्रा मे भरत चापि युवराज्ये नियोजितः तोऽहं त्वामागतो द्रष्टुं प्रस्थितौ विजनम् वनम् भर्तस्य समीपे ते नाहं कथ कदाचन वृद्धियुक्ता हि पुरुष न सहन्ते परसवम् तस्मान्न ते गुणः कथ भरतस्यातो मम अहं ते नानुवक्तव्यो विशेषेण कदाचन अनुकूलतया शक्यम् समीपे तस्य वर्तितुम् तस्मै दत्तम् नृपतिना यौवराज्यम् सनातनम् सप्रसाध्य तया सीते नृपतिश्च विशेषतः अहं चापि प्रतिज्ञां ताम् गुरोसमनुपालयन् वनम् स्त्री भव मनस्विनी याते च मयि कल्याणी निशेवितं मोनि निषेवितं परय भवितव्यं त्वया नघे कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि वन्दितव्यो दशरथ पिता म जनेश्वर माता च मम कौसल्या क्रुद्धा सन्तापकर्षिता धर्ममेव गृह कृत्वा तत् सम्मानमर्हति वन्दितौ व्यासते नित्यं ये च मम मातर नैः प्रणाय शम्भो वै समाहि मम मातर भातृ पितृ पितृसम्भो चापि दक्ष्योचो ीय सर्वं मम विप्रियं च न कर्तव्यम् भरतस्य कदाचन स राजा च वैदेहि देशस्य च कुलस्य च आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः राजान सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये औरस्यानपि और पुत्रान् हि जकारिण समी जाननिप सा तम वसे कल्याणी सायसमुवर्ति भरतर्मे सक्रत पायण अहम गमीषा महावनम प्रि या वस्तव्यम इमिनी यथा व्यलिकं गुरुचे न तथा कृमिदं वचो मम इत्यार्षे श्रीमद् रामायणे वाल्मीकि अधिकार्ये अवध्याकाण्डे षड्विंश